अथ षोडशः सर्गः सतदन्तः पुरद्वारम् समतीत्यजनाकुलम् प्रविविक्ताम् ततः कक्ष्यामाससादपुराणवित् प्रासकार्मुकबिभ्रद्भिर्यवभिर्मृष्टकुण्डलैः अप्रमादिभिरेकाग्रैः स्वानुरक्तैरधिष्ठिता तत्र काषायिणो वृद्धान् ददर्श विष्ठितान् द्वारिस्त्र्यध्यक्षान् सुसमाहितान् ते समीक्ष्य समायान्तम् रामप्रियचिकीर्षवः सहसोत्पतिताः सर्वे ह्यासनेभ्यः स सम्भ्रमाः तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः क्षिप्रमाख्यातरामाय सुमन्त्रो द्वारि तिष्ठति ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः सह भारय राय क्षिप्रेवाच चि प्रतिदितूतम पिता त्रैवानाय राघव प्रियकाम तम वैश्रवण अनुलिप्तम् परार्घ्येन चन्दनेन परम् तपम् स्थितया पार्श्वतश्चापि वालव्यजनहस्तया उपेतम् सीतया भूयश्चित्रया शशिनम् यथा तन्तपन्तमिर्वादित्यमुपपन्नम् स्वतेजसा भवन्देवरदम् बन्दी विनयज्ञो विनीतवत् प्राञ्जलिः सुमुखम् दृष्ट्वा विहारशयनासने राजपुत्रमुवाचेदम् सुमन्त्रो राजसत्कृतः कौसल्या सुप्रजा रामपिता त्वाम् द्रष्टुमिच्छति महिष्यापि हि कैकेय्यागम्यताम् तत्रमाचिरम् एवमुक्तस्त्व नरसिंहो महाद्युतिः ततः सम्मानयामास सीतामिदमुवाचः देवी च समागम्यमदन्तरे मंत्रयेते ध्रुव किशेचन संहित लक्षिभिप्राय प्रियमा सुदिणा संचोदय राजजानमदी क्षण सा प्रहृषा महाराज हित दिष्ट्या खलु महाराज महिष्या प्रियया सह स्वमन्त्रम् प्राहिणोद्दूतमर्थकामकरम् मम यादृशी परिषत् तत्र दूत आगतः ध्रुवमद्यैव माम् राजा यौवराज्येऽभिषेक्ष्यति हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् सः परिवारेण सुखमास्वरमस्व पतिसम्मानिता सीता भर्ता रमसि ते क्षणा आ द्वारमनुवव्राजमङ्गलान्यभिदध्युषी राज्यम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् कर्तुमर्हति ते राजा वासवस्येव लोककृत् दीक्षितम् वृतसम्पन्नम् वराजिनधरम् शुचिम् कुरङ्गशृङ्गपाणिम् च भजाम्यहम् पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः वरुणः पश्चिमामाशाम् धनेशस्तोत्तराम् दिशम् अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् पर्वतादिव निष्क्रम्य सिंहो गिलिगुहाशयः लक्ष्मणम् द्वारिसो पश्यत्प्रह्वाञ्जलिपुटम् स्थितम् अथ मध्यमकक्ष्यायाम् समागच्छत् सुहृज्जनैः सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य करेणुशिशुकल्पैश्च युक्तम् परमबाजिभिः हरियुक्तम् सहस्राक्षो रथमिन्द्र इवाशुगम् प्रययौ तूर्णमास्थाय राघवोज्ज्वलितश्रिया सपर्जन्य इवाकाशे स्वनबानभिनादयन् निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः जुगो बभ्रातरम् भ्राता रथमास्थाय पृष्ठतः ततो हल हला, हला शब्दस्तु मुलः समजायत तस्य निष्क्रममाणस्य ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः अनुजग्मस्तथा रामम् शतशोथसहस्रशः अग्रजश्चास्य सन्नद्धाश्चन्दना खड्गचापधराः जग्मु शूरा जग्मुराशंसरो जनाः ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च बन्दिनाम् सिंहनादाश्च शूराणाम् ततः शुश्रुविरेपथि हर्म्यवाताय नस्थाभिर्भूषिताभिः समम् ततः कीर्यमाणः सु पुष्पोऽघैर्ययोस्त्रीभिररिन्दमः रामम् सर्वानवद्याङ्गो रामपि प्रेषया बचोभिरग्रैर्हर्म्यस्थाः क्षितिस्थाश्च वन्दिरे नूनम् नन्दति ते माता कौसल्या मातृनन्दना पश्यन्ती सिद्धयात्रम् त्वाम् पित्र्यम् राज्यमुपस्थितम् सर्वसीमन्तिनीभ्यश्च सीताम् सीमन्तिनीम् वराम् अमन्यन्त हिता नार्यो रामस्य हृदयप्रिया तया सुचरितम् देव्या पुरा नूनम् महत्तपः रोहिणीव शशाङ्केन राम संयोगमापया इति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः शुश्राव राजमार्गस्थः उदाहृताः स राघवस्तत्र तदा आत्माधिकारा विविधाश्च एष श्रियम् गच्छति राघवोध्य राजप्रसादाद् विपुलाम् गमिष्यन् एते वयम् सर्वसमृद्ध कामा एषामयन्नो भविता प्रशास्ता लाभो जनस्यास्य यदेष सर्वम् प्रपत्स्यते राष्ट्रमिदम् चिराय न जातु कश्चित् पश्येन्न दुःखम् सघोष वद्भिश्च हयैः स नागैः पुरःसरैः स्वस्तिक सूतमागधैः महीयमानः प्रवरैश्च इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षोडशः